ततः शब्देन महता भर्त्सयन्तौ परस्परम् पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलाभौ बाहुभिः समसज्जेता मायसैः परिघैरिवा कार्तिकस्य तु मासस्य प्रवृत्तम् प्रथमेहनी अनाहारम् दिवारात्रमविश्रान्तमवर्तत तद्वृत्तम् तु त्रयोदश्याम् समवेतम् महात्मनोः चतुर्दश्याम् निशायाम् तु निवृत्तो मागधः क्लमात् तम् राजानम् तथा क्लान्तम् दृष्ट्वा राजन् उवाचकर्माणम् भीमं क्लान्तः शत्रुर्न कौन्तेय लभ्यः पीडयितुम् रणे पीड्यमानो हि कार्त्येन जह्याज्जीवितमात्मनः तस्मात्तेनैव कौन्तेय पीडनीयोजनाधिपः सममेतेन युध्यस्वा बाहुभ्याम् भरतर्षभ एव मुक्तः स कृष्णेन पाण्डवः परवीरः तद्रूपं ज्ञात्वा चक्रे ततस्तमजितं जेतुं जरासन्धं मृकोदरः संरम्भं बलिनां श्रेष्ठो जग्राहकुरुनन्दनः इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि जरासन्धक्लान्तौ त्रयोविंशोऽध्यायः